ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 19 श्राद्धकल्पे ब्रह्मणपरीक्षा शम्युरुवाच किं स्विद्ध पितॄणां तु तृप्तिदं वददां वर किं सि स्यात् चिररात्राय किं वानन्द्याय कल्पते बृहस्पतिरुवाच हवीषि श्राद्धकल्पेदु यानि श्राद्धविदो विदुः तानि मे शृणु सर्वाणि फलं चैषां यथा तथं तिलैर्व्रीहि य वै माषैरद्भिर्मूलफलैस्तथा दत्तेन मासं प्रीयन्ते श्राद्धेन हि पितामहा मत्स्यैः प्रीणन्दि द्वौ मासौ त्रिन्मासान् कारिणेन शासेन च यच्च पार्वतकं भवेद् रौरवेण दुः प्रीयन्ते नवमासान् पिता महाः गवयस्य दुमांसेन तृप्तिस्या दशमासिकी औरभ्रेण च मांसेन मासानेकादशैवतु श्राद्धे च तृप्तिदं गव्यम् पयः संवत्सरं द्विजाः आनन्द्याय भवेत्तद्वद्घट्गमांसं पितृक्षये पायसम् मधुसर्पिर्भ्यां छायां कुञ्जरस्य च कृष्णच्चागस्य मासेन तृप्तिर्भवति शाश्वती अत्र गाधा पितृगीधा पुरा विदः तास्तेऽहं कीर्तयिष्यामि यथावत्सन्निबोधमे अपि नः स कुले यायाद्यो नो दद्या आजेन सर्वलोहेन वर्षासु च मखासु च येष्टव्या गयां व्रजेद गौरीं वाप्युद्वहेद्भार्यां नालं वा वृषमुत्सृजेद शं युरुवाच गयादीनां फलं दाद ब्रूहि मे परिपृच्छतः दातॄणां चैव यत्पुण्यं निखिलेन प्रवीहि मे गयामक्षयं श्राद्धं जपहोमतपांसि च पितृक्षयेहि तत्पुत्र तस्मात्तत्राक्षयं स्मृतम् पूर्णायामेकविंशं तु गौर्यामुत्पादितसुतः महामहांश्च जुहुया दिदि तस्य फलं स्मृतं भालं। वृषस्य वक्ष्यामि ददतो मे निबोधत वृषोत्स्रष्टा पुनात्येव दशातीता दशावरान् यत्किञ्चित् स्पृशदेतोऽयमवतीर्णो नदीजले वृषोत्सर्गत्पितॄणां तु ह्यक्षयं समुदाहृतम् येन येन स्पृशेत्तोऽयं लाङ्गूलादिभिरङ्गषः सर्वं तदक्षयं तस्य पितॄणां नात्रसंशयः संशयः शृङ्गैखुरैर्वभूमिं या मुल्लिखत्यनिशमृषः मधुकुल् ह्यापितृंस्तस्य ह्यक्षयाश्च भवन्ति वै साहस्र सहस्रनल्वमात्रेण तडागेन यथाश्रुतिः तृप्तिस्तु या पितॄणां वै सा वृषेणेह कल्पते यो ददादिगुडोन्मिश्रतिलानिश्राद्धकर्मणि मधु वा मधुमिश्रं वा सर्वमेवाक्षयं भवेद् न ब्राह्मेे सदाई दर्मी पित्रे चूयते वै, वै परीक्षण सर्वेद्रतस्नाधापक्ना पावनाजा ये चाषा जिद्येच व्याणे रता अधीयदे पुराणं वै धर्मशास्त्रमथापि च त्रिणाचिकेध पञ्चाग्निः सौपर्णषडङ्गविद ब्रह्मदेवसुतश्चैव छन्दो गो ज्येष्ठसामघः पुण्येषु यश्च तीर्थेषु कृतस्नानकृतव्रतः मखेषु ये च सर्वेषु भवन्त्यवभृता प्लुताः ये च सत्यव्रता नित्यं स्वधर्मनिरताश्च ये अक्रोधना लोभपरास्ताञ्छ्राद्धेषु निमन्त्रयेद ये देभ्यो दत्तमक्षय्य मे दे वै धिया ब्रह्मणा यदु योगव्रतसुनिष्ठिताः त्रयोऽपि पूजितास्तेन ब्रह्मविष्णुमहेश्वराः पितृग्भिस्सहलोकाश्च यो ह्येतान् पूजयेन्नरः पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् प्रथमः सर्वधर्माणां योगधर्मो निगद्यते अपाङ्क्ते यान् प्रवक्ष्यामि गददोमे मे किदवो मद्यपोयश्च पशुपालो निराकृतः ग्रामप्रेष्यो वार्धुषिकोह्यापणो वणिजस्तथा अगारदाही गरदो वृषलो ग्रामयाचकः काण्डपृष्ठोधकुण्डाही मधुप सोमविक्रयी समुद्रान्धरिदो भृत्यपि शुनकूटसाक्षिकः पित्रा विवधमानश्च यस्य चोपपदिर्गृहे अभीक्षस्तथास्ते न शिल्पं यश्चोपजीवति कानश्च यश्च मित्राणि वेदवर्जितः उन्मत्तोऽप्यथ षण्ठश्च भ्रूणः गुरुतल्पगः विषग्जीवीप्राशनिकः परस्त्रीम यश्च सेवते विक्रीणातिचयो ब्रह्मव्रतानि नियमांस्तथा नष्टं स्यान्नास्तिके दत्तं व्रदघ्ने चापवर्जितं यच्च वाणिजके दत्तं नेखनामुत्र सम्भवेद् निक्षेपकारके चैव कृतघ्ने विदवर्जिते तथा पाणविके वैच कारूके कारुके धर्मवर्जिते क्रीणादि योह्यपण्यानि विक्रीणादिप्रशंसति अन्यत्रास्य समाधानं न वणिकूच्छ्राद्धमर्हति भस्मनीव हुदं हव्यं दत्तं पौनर्भवेद्विजः षष्टिं काणशतं षण्ढश्वित्री पञ्चशतान्यपि पापरोगीसहस्रं वै दादुर् फलं भ्रश्येद्धि स फला प्रदादा यस्तु बालिशः यद्विष्टिदशिरा भुङ््रे यद्भुङ्गे दक्षिणामुखः सोपानत्कश्च यद्भुङ््रे सर्वं तदसुरेद्राय ब्रह्मा भागमकल्पयत् श्वा चैव नावेक्षेद कथञ्चन तस्मात् परिवृतैर्द्यात् तिलैश्चान्नं विकीर्य विकीर्यच। राक्षसानां तिलाः प्रोक्ताशूनां परिवृतास्तथा दर्शनात् सुकरो हन्ति पक्षवादेन कुक्कुटः रजस्वलाय स्पर्शेन क्रुद्धो यश्च प्रयच्छति नदीतीरेषु सरित्सु सरसुच सरस्सु च विविक्तेषु च प्रीयन्ते दत्तेनेह पितामहाः ना सव्यं वाचमीरयेत न युक्तो वाचमीरयेत् तस्मात्परिवृतेनेह विधिवद्दर्भपाणिना पित्रोराराधनं कार्यमेवं प्रीणयदे पितॄन् अनुमान्यद्विजान् पूर्वमार्गं कुर्याद्यथा विधि श्राद्धं कुर्याद्यथा कृष्णपक्षे परङ्णेदु रौहिणं वै न लङ्घयेद् एवमेदे महात्मानो महायोगा महौजसः सदा वै पितरपूज्या सम्प्राप्तौ देशकालयोः पितृभक्रियैव प्राप्नोति दुर्लभम् ध्यानेन मोक्षं गच्छेद्धि हित्वा कर्म शुभाशुभं यज्ञहेदोस्तदुद्धृत्य मोहयित्वा जगत्तथा गुहायां निहितं ब्रह्म कश्यपेन महात्मना अमृतं गुह्यमुद्धृत्य योगे योगविदां वराः प्रोक्तः सनत्कुमारेण महातो ब्रह्मणपदं देवानां परमं गुह्य ऋषीणाञ्च परायणं पितृभाक्रियाप्रयत्नेन प्राप्यते तन्मनीषिभिः पितृभासमासेन पितृपूर्वपरश्चयः अयत्नात् प्राप्नुयादेव सर्वमेदन्नसंशयः बृहस्पतिरुवाच यस्मै श्राद्धानि देयानि यच्च दत्तं महद्फलं येषु चाप्यक्षयं श्राद्धं तीर्थेषु च गुहासु च येषु स्वर्गमवाप्नोति तत्ते प्रोक्तं ससङ्ग्रहं श्रुत्वे मम श्राद्धकल्पं च न कुर्याद्यस्तु मानवः स मज्जेन्नरके घोरे नास्ति कस्तमसावृते परिवादो न कर्तव्यो योगिनां तु विशेषतः परिवादात् क्रिमिर्भूत्वा तत्रैव परिवर्तते योगान् परिवदेद्यस्तु ध्यानिनो मोक्षकाङ्क्षिणः स गच्छेन्नकम् घोरं श्रोदाप्यस्य न संशयः आवृतं तमः सः सर्वं नरकम् घोरदर्शनम् योगीश्वरपरिवादान्नस्वर्गं यादि मानवः योगेश्वराणामाक्रोशं शृणुयाद्यो यदात्मनाम् सखि कालं चिरं मज्जेन्नरके नात्र संशयः कुम्भीपाकेषु पच्यन्ते जिह्वाच्छेदे पुनः पुनः समुद्रे यथा लोष्टस्तद्वत्सीदन्ति ते नराः मनसा कर्मणा वाचाद्वेषं योगेषु वर्जयेद् प्रोक्त्यानन्दं फलं भुङ्क्त इहवापि न संशयः न पारगोविन्ददि परमात्मनस्त्रिलोकमध्ये चरदि स्वकर्मभिः ऋचो पारगे विकारमेदं श्यनवाप्यसीदति विकारपारं प्रकृतेश्च पारगस्त त्रयी गुणाना त्रिगुणस्य पारगः या स्याचतुर्विशदितत्त्वपारग स पारगो नाध्ययनस्य पारगः कृष्णं यथावत्समुपैति तत्परस्तथैव भूयः प्रलयत्वमात्मनः प्रत्याहरेद्योगपथं न यो द्विजो न सर्वपारक्रमपारगोचरः वेदस्य वेदितव्यं च वेद्यं बिन्ददि योगविद तं वै वेदविदः प्राहुस्तमाहुर्वेदपारगम् वेदं च वेदितव्यं च विदित्वा वै यथास्थितः एवं वेदविदःप्राहुरण्यं वै वेदपारगं यज्ञान्वेदांस्तथा कामांस्तपांसि विविधानि च प्राप्नोत्यायुःप्रजाश्चैव पितृभक्तो न संशयः श्रद्धया श्राद्धकल्पं तु यस्त्विमं नियतः पठेद सर्वाण्येदानि तीर्थ दानफलानि च स पङ्क्रि पावनश्चैव आश्रा द्विजानामग्रभुग्भवेद् आश्राव्य च द्विजान् शोध सर्वकामानवाप्नुयाद् यश्चैदशृणुयान्नित्यमन्यांश्च श्रावयेद्विजः अनसूयोर्जितक्रोधो लोभमोहविवर्जितः तीर्थादीनां फलं प्राप्य दानादीनां च सर्वशः मोक्षोपायं लभे श्रेष्ठं स्वर्गोपायं न संशयः इक चापि परा पुष्टिस्तस्मात् कुर्वीद नित्यशः इमं विधिं यो पढे समाहितः संसदि पर्वसन्धिषु अपत्यभागी च परेण तेजसा दिवौकसां सव्रजते येन प्रोक्तस्त्वयं कल्पो नमस्तस्मै स्वयंभुवे महायोगेश्वरेभ्यश्च सदा च प्रणतोऽस्म्यहम् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे ब्रह्मणपरीक्षा नाम एकोनविंशोऽध्यायः ओ